देवी मानसपूजा ओ अथ श्रीदेवी चतुष्षष्ट्युपचारपूजास्तोत्रम् उषसि मागधमङ्गलगायनैर्छटिति जागृहि जागृहि जागृहि अधिकृपार्द्रकडाक्षनिरीक्षणैर्जगदिदम् जगदम्बसुखी कुरु कनकमयविदर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् मणिमयमण्डपमध्य मेहि मातः मयि कृपया शुसमर्चनं ग्रहीतुम् कनककलशोभमानशीर्षम् जलधरलम्बिसमुल्लः सत्पदाकम् भगवदि तव संनिवासहेतोः मणिमयमन्दिरमेदर्पयामि तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा नवरत्नविभूषिता शिबिकेयं जगदम्बतेऽर्पिता कनकमयविदर्धिस्तापिधे तूलिकाढ्ये विविधकुसुमकीर्णे कोडिबालार्कवर्णे भगवदिरमणीये रत्नसिंहासनेऽस्मिन्नुपविशपदयुग्मम् हेमपीठे निधाय मणिमौग्रिकनिर्मिदम् महान्तं कनकस्तम्भ च दुष्टयेन युक्तं कमनीयतमं भवानि तुभ्यम् नवमुल्लोचमहं समर्पयामि दोर्वया सरसिजान्विदविष्णुक्रान्तया च सहितं कुसुमाढ्यम् पद्मयुक्मसदृश्ये पदयुक्मे पाद्यमेद दुरीकुरुमादः गन्धपुष्पयव सर्षपदूर्वा संयुदं तिलकुशाक्षतमिश्रम् हेमपात्रनिहितं सह रत्नैः अध्यर्मेद दुरीकुरुमातः जलजद्युदिना करेण जादी फलतकोलवङ्गगन्धयुक्तैः अमृतैरमृतैरिवादिशीदैः भगवत्या चमनं विधीयताम् निहितं कनकस्य सम्पुडे पिहितं रत्नपिधानकेन यत् तदितं जगदम्बतेऽर्पितम् मधुपर्कम् जननि प्रगृह्यता ये दच्छम्पकतैलमम्बविद्धैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतं सानन्दं सुरसुन्दरीभिरभिदो हस्ताैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते माधकुङ्गुमपङ्गनिर्मिदमिदं देहे तवोद्वर्तनम् भक्र्याहं कलयामि हेमरजसा सम्मिश्रितं केसरैः केशानामलकायर्विशोध्यविशदान् कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः ना संवासितोष्णोदकैः दधि दुग्धघृधैः समाक्षिकैः सितया शर्करया समन्वितैः स्नपयामि तवाह मादरा पुनरुष्णवारिभिः ये लोशीरसुवासिधैः सकुसुमैर्गङ्गादितीर्थोदकैः माणिक्यामलमौक्तिकामृदरसै स्वच्छै सुवर्णोदकैः मन्त्रान्वैदिकतान्त्रिकान् परिपठन्सानन्दमत्यादराद स्नानं ते परिकल्पयामि जननिस्नेहात्वमङ्गीकुरु बालार्कद्युदि दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमम् परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् मुक्ताभ्युर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीदप्रभं नवरत्नमये मयार्पिदे कमनीये तपनीयपादुके सविलासमिदम् पदद्वयं कृपया देवि तयोर्निधीयता बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान् कङ्कतैर्मार्जयित्वा सुरभिरविन्दैश्चम्पकैश्चार्चयित्वा षडिदि कनकसूत्रार्जोडयन्वेष्टयामि सौवीराञ्चनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया ब्रह्मेन्द्राद्याभिलषणीयतामियाय मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले जेयूराणि भुजेषु रत्नवलयश्रेणीं करेषुक्रमात्ताडङ्गे तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्िकम् मादर्मौक्रिकजालिकाञ्च मादर कुजयोः सर्वाङ्गुलीषूर्मिकाः कटया काञ्चन किङ्गिणीर्विनिदधे रत्नावतं संश्रुतौ मातः विमले काश्मीरकस्तूरिकाकर्पूरा गरुभिः करोमि तिलकं देहेङ्गरागं तदः वक्षोजादिषु यक्षकर्दमरसम् चिक्त्वा च पुष्पद्रवं पादौ चन्तनलेपनादिभिरहं सम्पूजयामि क्रमाद रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुजिरैरविधैः अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्गाङ्गिततण्डुलैर्वा जननि चम्पकतैलमिदं पुरो मृगं मदोपयुदं पडवासकं सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् सीमन्ते भगवदिमया भगवति मया सादरं न्यस्तमेतत् सिन्धूरं मे हृदयकमले हर्षवर्षं तनोदि बालादित्यद्युदिरिव सदा लोहिता यस्य कान्दिरन्तर्ध्वान्तं हरदि सकलं चेदसा चिन्तयैव मन्दारकुन्दकरवीरलवङ्कपुष्पैः त्वां देवि सन्ततमहं परिपूजयामि जादी जपावकुलचम्पककेतकादिनानाविधानि कुसुमानि च देर्पयामि मालतीवकुलहेमपुष्पिका मा काञ्चनारकरवीरकैदकैः कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्पते वपुः पारिजादशतपत्रपाडलैः मल्लिका वकुलचम्पकादिभिः अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब हे वपुः लाक्षासम्मिलितैः सिदाभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषाः लो गरु लोडितैः श्रीखण्डा गरुगुग्गुलुप्रभृदिभिर्नानाविधैर्वस्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्वमङ्गीगुरु यत्नालङ्कृत हेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोडिप्रभैः आदाम्रज्ज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मादस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः मातस्त्वां दधिदुग्धपायसमःल्यन्नसन्तानिकाः सुपापोपसिताकृतैः सवटकैः सक्षौद्ररम्भाफलैः येलाजीरकिङ्गुनागरनिशा कुस्तुम्भरी संस्कृतैः शाकैः शाकमहं सुधाधिकरशैः सन्दर्पयाम्यर्चयन् सा पूपसूपदधि दुग्धसिदाहृदानि सुस्वादुभक्तपरमान्नपुरःसराणि शाकोल्लसन् मरीचिजीरकवाह्निकानि भक्ष्याणि भुङ्क्ष्वजगदम्बमयार्पितानि क्षीरमेददिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु मादरेदमृतोपमं पयः सम्भ्रमेण परिबीयदा मुहुः उष्णोदकैः पाणियुगम् मुखं च प्रक्षाल्य माधकलधौदपात्रे कर्पूरमिश्रेण सकुङ्कुमेण हस्तौ समुद्वर्तय चन्दनेन अधिशीतमुषिरवासितम् तपनीये कलशे निवेशितं, पटपूतमिदं जिदामृतं शुचिगङ्गाजलमम्ब द्राक्षा जम्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि सनारिकेलानि तदाडिमानि फलानि ते देवि समर्पयामि कूष्माण्डकोशातकिसंयुतानि जम्भीरनारङ्गसमन्वितानि सबीजपुराणि सबादराणि फलानि ते देवि समर्पयामि कर्पूरेण युतैर्लवङ्गसहितैस्तकोलचूर्णान्वितैः सुस्वादुक्रमुकैः स गौरकदिरैः सुस्निग्धजादीफलैः माधकैदकपत्रपाण्डुरुजिभिस्ताम्बूलवल्लीदलैः सानन्दम् मुखमण्डनार्थमधुलं ताम्बूलमङ्गीकुरु एलालवङ्गादिसमन्वितानि तकोलकर्पूरविमिश्रितानि ताम्बूलवल्ली दलसंयुतानि पूगानि ते दे देवि समर्पयामि ताम्बूल निर्जितसुतप्तसुवर्णवर्णम् स्वर्णाक्रपूगफलमौक्तिकचूर्णयुक्तम् सौवर्णपात्रनिषितं खदिरेण सार्धं ताम्बूलमम्बवदनाम्बुरुहे गृहाण महदिकनकपात्रे स्थापयित्वा विशालान् दमरुसदृशरूपान् बद्ध गोधूमदीपान् बहु शून्यस्य दीपान् प्रकृष्टान् भुवनजननि कुर्वे नित्यमारार्तिकं ते सविनयध द्वाजा धरण्यापदी शिशिध्वा पात्र मुखकमीपेब साधं त्रिवा भ्रमयदी मयि भूया भूयाते कटाक्ष अथ बहुमणिमिश्रायैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयै पूजयित्वा च वस्त्रैः मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि दक्षिणां तैर्पयामि माधकाञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्न विश्वोभिहेमकलशं लोकत्रयाह्लादकं भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं परिकल्पयामि शिरसित्वष्ट्रास्वयं निर्मितम् शरदिन्दुमरीचिगौरवर्णैर्मणि मुक्ता विलसत्सुवर्णदण्डैः जगदम्बविचित्रचामरयिस्त्वा महमानन्दभरेण बीजयामि मार्ताण्डमण्डलनिभो जगदम्बयोऽयं भक्र्यामयामणिमयो मुकुरोऽर्पितस्ते पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीयमस्मिन् विलोकय विलोल विलोचने इन्द्रादयो नदी नदैर्मकुडप्रदीपैर्नीराजयन्ति सततं तव पादपीठम् तस्मादहं तव समस्तशरीरमेदन् नीराजयामि जगदम्ब सहस्रदीपैः प्रियगदिरदितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषस्निग्धगम्भीरघोषः भगवति कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेकस्तुरङ्कः मधुकरवृदकुम्भन्यस्तसिन्धूररेणुः कनककलितखण्डा किङ्गिणी शोभिकण्ठः श्रवणयुगलचञ्चच्चामरो मे कुल्यो जननि तव मुदेश्यान्मत्तमादङ्ग एषः द्रुततरतुरगैर्विराजमानम् मणिमयचक्रचतुष्टयेन युक्तम् कनकमयममुं विदानवन्दं भगवदि तेहि रथं समर्पयामि हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेखनादयुक्तम् भगवदि। भक्तिभरेण तेर्पयामि वजिकीकृतसप्तसागरं बहुसम्पत्सखितं मया पदे विपुलं प्रबलं धरणीतलाभितं दृढदुर्गं निखिलं समर्पयामि शतपत्रयुतैः स्वभावशीतैः अदि सौरभ्ययुतैः परागपीतैः भ्रमरीमुखरीकृतैरनन्दैः व्यजनैस्त्वां जगदम्बविजयामि विगलिद भ्रमरर्लुलितलोलकुन्दलाली विकलितमाल्यविकीर्णरङ्गभूमिः इयमदिरुचिरानडीनडन्दी तव हृदये मुदमातनोदुमातः मुखनयनविलासलोलवेणी विलसितनिर्जितलोलभृङ्गमालाः युवजनसुखकारिचारुलीला भगवदिते पुरदो नडन्ति बालाः भ्रमतलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्य दिव्यलावण्यपुराः अनुपमिदसुवेशा वरयोषा नडन्ति परभृदकलकण्ठ्यो देवि दैन्यं धुनोदु डमरुढिण्डिमझर्झरछल्लरी जार मृदुरवद्रगडद्रगडादयः षडिदि चाङ्गृदचाङ्गृदचाङ्गृतैः बहुदयं बहुदयम सुखयन्तु ते विपञ्चेषु सप्त स्वरान्वादयन्त्यस्तवद्वारि गायन्ति गन्धर्वकन्याः क्षणं सावधानेन चित्तेन मादःसमाकर्णयत्वं मया प्रार्थितासि अभिनयकमनीयाैर्नर्तनायैर्नर्तकीनाम् क्षणमपि रमयित्वा चेदये तदीयं स्वयमहमदिचितैर्नृत्तवादित्रगीतैः भगवति भवदीयं मानसं रञ्जयामि तवदेवि देवि गुणानुवर्णने चतुरानो चतुराननादयः तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः पदे पदे यत्परिपूजकेभ्यः सद्योश्वमेधादिफलं ददाति तत्सर्वपापक्षयहेदुभूतं प्रदक्षिणं ते परिधकरोमि रतो पलारक्तलदाप्रभाभ्याम् ध्वजोद्वरेखाकुलिशङ्किताभ्याम् अशेषवृन्तारकवन्दिताभ्याम् नमो भवानीपदपङ्कजाभ्याम् चरणमलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालाम् कण्ठदेशेऽर्पयित्वा शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिष्ठे हृदयकमलमध्ये देवि हर्षं तनोतु अदमनिमयं चकाभिरामे कनकमयविता न प्रसर धूपितेऽस्मिन् भगवति भवने स्तु ते निवासः यदस्मिन् मणिखजिदे सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ विस्तीर्णे मृदुलतरोत्तरच्छदेस्मिन् पर्यङ्गे कनकमये निशीदमातः तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः अधिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् अथ मातरुचिरवासितम् निजदाम्बूलरसेन रञ्जितं तपनीयमये हि पट्टके मुख मुखगण्डूषजलं विधीयताम् क्षणमधजगदम्बमञ्चकेऽस्मिन् मृदुतलतूलिकाया मृदुतल अधिरखसि मुदा शिवेन सार्धम् सुखशयनं कुरुतत्र मां स्मरन्ती मुक्ता कुन्देन्दुगौरां मणिमयपूडां रत्नताडङ्गयुक्तामक्षस्रपुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्रां नानालङ्कारयुक्तां सुर मकुडमनिद्योदितः स्वर्णपीठा सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेदसा चिन्दयामि एषा भक्र्या तव विरचिता यामया मया देवीपूजा स्वीकृत्यैनां सपदि सकलान्मे पराधान् क्षमस्व न्यूनं यत्तत्तव करुणया पूर्णता मे दुसद्यः सानन्दं मे हृदयकमले तेस्तु स्तु नित्यं निवासः पूजामि मां यः पठति मध्याह्नकाले यदि वा प्रदोषे धर्मार्थकामान् पुरुषोऽभ्युपैति देहावसाने शिवभावमेति पूजामि मां पठेन् नित्यं पूजां कर्तुमनीश्वरः पूजाफलमवाप्नो दिवाञ्छितार्थं च विन्दति प्रत्यहम्भक्तिसंयुक्तो यः पूजनमिदं पठेद वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेद इति श्रीमत्परमहंस परिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवधकृतौ देवी चतुष्षष्ट्युपचारपूजास्तोत्रम् सम्पूर्णम् ओ